ब्रह्माण्डपुराणं मध्यभागम् अध्यायम् 21 समाप्तश्चायं श्राद्धकल्पः वसिष्ठ उवाच इद्धं प्रवर्तमानस्य जमदग्नेर्महात्मनः वर्षाणि कदि चिद्राजन्व्यतीयुरमितौ जसः रामोऽपि नृपशार्दूलसर्वधर्मभृताम्बरः वेदवेदाङ्गतत्त्वज्ञ सर्वशास्त्रविशारदः वेदा पित्रोश्चकारशुश्रूषां विनीतात्मा महामतिः प्रीतिं च निज चेष्टाभिरन्वकं पर्यवर्तयद युद्धं प्रवर्तमानस्य वर्षाणि कतिचिन् नृपपित्रो शुश्रूषया नैषीद्रामो मदिमदाम्बरः स कदाचिन्महते जाः पितामह गुहं प्रति गन्धुं व्यवसिदो राजन् दैवेन च नियोजितः निपीड्य शिरसा पित्रोश्चरणौ भृगुपुङ्कवः उवाच प्राञ्चलिर्भूतवासप्रश्रयमिदं वजः कञ्चिदर्थमखं तादमादरं त्वां च साम्प्रतं विज्ञापयितुमिच्छामि मम तच्छ्रोतुमर्हतः द्रष्टु द्रष्टुमुत्कण्ठितं मनास्थिरं तस्मात्तत्पार्श्वमधुना गमिष्ये वामनुज्ञया आहूतश्चासकृतादसोत्कण्ठं प्रीयमाणया पितामह्या बहुमुखैरिच्छन्द्या मम दर्शनम् पिदा पितॄन्पिता महस्याभिप्रियमेव प्रदर्शनं सदीयं तेन तत्पार्श्वं गन्तुं मामनुजानत वसिष्ठ उवाच इति तस्य वच श्रुत्वा सम्भ्रान्तं समुदीरितं हर्षेण महदायुक्तौ साश्रुनेत्रौ बभूवधूः मालिङ्ग्यमहाभागं मूर्ध्न्युपाख्राय सादरम् अभिनन्द्या शिशा तादह्युभौ पितामहगृहं तादप्रयाहित्वं यथासुखं। सुखं पितामहपितामह्योःप्रीदये दर्शनाय च यधान्यायं स्थित्वा तथ न्या तुश्रूषा पराय कंचिका तोत्स्रीत तदृहे स्थिवाचिका तोर्भूप्युशय महाभागक्षस्मदिदृक्ष क्षणार्थमपि शक्तास्थो नविना विना पुत्रदर्शनं तस्मात् पिता महगृहे न चिरास्तादुमर्हसि तदा ज्ञयाथवा पुत्रप्रपिता शीघ्रमागच्छक्रमेण तदनुज्ञया वसिष्ठ उवाच इत्युक्तस्तौ परिक्रम्य प्रणम्य च महामतिः पितरावप्यनुज्ञाप्य पितामहगृहं ततः सगत्वा गत्वा भृगुवर्यस्य ऋचिकस्य महात्मनः प्रविवेशाश्रमं रामो मुनिः शिष्योपशोभितम् स्वाध्यायघोषैर्विपुलै सर्वतः प्रदिनादितं प्रशान्तवैरसत्त्वाढ्यं सर्वसत्त्वमनोहरम् सप्रविश्य श्रमं रम्यमृचीकं स्थितमासने ददर्श रामो राजेन्द्र स महमग्रतः जाज्वल्यमानं तपसाधिष्ण्यस्तमिव पावकम् उपासिदं सत्यवत्या यथा दक्षिणायध्वरं स्वसमीपमुपायान्तं राममालोक्य तौ नृप सुचिरं तं विमर्शेदां समाज्ञा पूर्वदर्शनौ कोऽयमेष तपो राशिः सर्वलत्रणपूजितः बालोऽयं बलवान् भादिगाम्भीर्यात्प्रश्रयेण च एवं तयोश्चिन्तयतो सहर्षं हृदि कौतुकात् आससादशनै रामः विनयान्वितः स्वनामगोत्रे मतिमानो कृत्वा पित्रोर्मदान्वितः संस्पृश्यं शरणौ मूर्ध्ना हस्ताभ्यां चाभ्यवादयद ततस्तौ प्रीतमनसौ समुदाभ्यजसत्तमम् आशीर्भिरभिनन्देतां पृथक् पृथगुभावपि उत्तमाशृष्याङ्गमारोप्य हर्णाश्रुप्लुतलोचनौ वीक्षन्तौ तन्मुखाम्भोजं परं हर्षमवापदुः तदसुखोपविष्टं तमात्मवंशसमुद्वहम् अनामयमभृच्छेदां तावुभौ दम्पती तदा पितरौ कुशलिनो वत्स अनायासेनते भ्रातरस्तथा अनायासेन ते वृत्तिर्वर्तते चाधकर्हिचित् समस्ताभ्यां ततो राजन्नाचचक्षे यथोदितः तथा स्वानुगतं पित्रोर्भ्रातॄणां चैव चेष्टितं एवं तयोर्महाराज सत्प्रीतिजनितैर्गुणैः प्रीयमाणो वसद्रामः पितुः पित्रोर्निवेशने स तस्मिन् सर्वभूतानां मनोनयननन्दनः उवासकदिचिन्मा सां तच्छुश्रूषापरायणः अथानुज्ञाप्यतौराजन् भृगुवर्यो महामनाः पितामहगुरोर्गन्तुमियेषाश्रयमाश्रमं सदाभ्यां प्रीतियुक्ताभ्यामाशीर्भिरभिनन्दितः यथा चाभ्यां प्रदिष्ठेन यया वौर्वाश्रमं प्रदि तं नमस्कृत्य विधिवच्यवनं च महातपः सप्रहर्षं तदा ज्ञादप्रययावाश्रमं भृगोः स गत्वा मुनिमुख्यस्य भृगोराश्रममण्डलं ददर्शन्दचेदोभिर्मुनिभिः सर्वतोवृधं सुस्निग्धशीतलचायैः सर्वर्तुकगुणान्वितैः रुभिसमृतं नानाखग नानाखगकुलारावैर्मनः श्रोत्रसुखावहैः ब्रह्मकोषैश्च विविधैः सर्वतः प्रदिनादिदं समन्त्राहुदि होमोद्धधूमगन्धेन सर्वतः निस्तिलासर्पिण समदंडमेखलाजिनमंडित अभीत शोभितजन रम्य मुनि कुमार प्रसूनजलपूर्णपात्रहस्तार शोभित मुनि सपोद कल्याभिश्चरन्तीभिरितस्ततः सपोदहरिणियोधैर्विस्रम्भादविशङ्किभिः उडजाङ्गणपर्यन्ततरुश्चायाश्वधिष्ठितं रोमन्ततः परामृष्टि योधसाक्षिकमुत्पदैः प्रारधतांडवी मयूरमधुरस्व प्रविकीर्णकणोदेश्यम मृगश्दीपगीठाधपश्चाया शुष्य निवारशि भूयमाना पूज्यनातिथिव्रज अभ्यस्यमानछन्दौखं चिन्त्यमानगमोदितं पढ्यमानाखिल स्मार्तं श्रौदार्थप्रविचारणं प्रारब्धपितृदेवेज्यं सर्वभूदमनोहरं तपस्विजनभूयिष्ठमागापुरुषसेवितम् तपो तपोवृद्धिकरं पुण्यं सर्वसत्त्वसुखास्पदम् तपो धनानन्दकरं ब्रह्मलोकमिवा परं प्रसूनसौरभ्राम्यन्मधुपारावनादिदम् सर्वदो विज्यमानेन विविधेन नभस्वदा एवंविध गुणो भेदं पश्यन्नाश्रममुत्तमं प्रविवेश विनीतात्मा सुहृदी वामरालयं सम्प्रविश्यश्रमोपान्दं राम स्वप्रपिदामहम् ददर्शपरिदोराजन्मुनिशिष्यशदावृतं व्याख्यान व्यतिकामध्ये निविष्टं कुशविष्टरे सितश्मश्रु जडाकूर्चब्रह्मसूत्रोपशोभितं वामेतरोरुमध्याष्ट वामजङ्घेन जानुना योगपट्टेन संविधस्वदेहमृषिपुङ्गवं व्याख्यानमुद्राविलसव्यपाणितलाम्बुजम् योगपट्टोपरिण्यस्तविभ्राजद्वामपाणिकं सम्यगारण्यवाक्यानां सूक्ष्मतत्त्वार्थ संहतिम् विवृत्य मुनिमुखेभ्य श्रवयन्तं तपोनिधिं पिधुः पितामहं दृष्ट्वा रामस्तस्य महात्मनः शनैरिव महाराजसमीपं समुपागमद तमागदमुपालक्ष्य तत्प्रभावप्रदर्शिताः शङ्कामवापुर्मुनयो दूरादेवाखिला नृपा तावदू भृगुरमेयात्मा तदागमनतोषितः निवृत्तान्यकथालाभस्तं पश्यन्ना स पार्थिव रामोऽपि तमुपागम्य विनयावनदाननः अवन्ततयधान्ययमुपेन्द्र इव वेधसम् अभिवाद्य यथा न्यायं ख्यादिं च विनयान्वितः तांश्च सम्भावयामास मुनीन्द्रामो यथा वयः तैश्च सर्वैर्मुदोपेदैराशीर्भिरभिवर्धितः उपाविवेशमेधावीभूमौ तेषामनुज्ञया उपविष्टं तदो राम माषीर्भिरभिनन्दितं पप्रचक्कुशलप्रश्नं तमालोक्य भृगुस्तदा कुशलं खलु देवत् पित्रोश्च किमनामयं भ्रातॄणां चैव भवतः पितुः पित्रोस्तथैव च किमर्थमागधोऽत्रत्वमधुना मम मा सन्निधिम् केनापि वा त्वमादिष्टस्वयमेवाथवागधः ततो रामो यथान्यायं तस्मै सर्वमशेषदः कथयामास यत्पृष्टं तदा पितुर्मातुश्च वृत्तान्तभ्रातॄणां च महात्मनां पितुः पित्रोश्च कौशल्यदर्शनं च तयोर्नृप एतदन्यश्च सकलं भृगो सप्रश्रयं मुदा न्यवेद समीहितं श्रुत्वै तदखिलं राजन्रामेण समुदीरिदं तञ्च दृष्ट्वा विशेषेण भृगुः प्रीतोऽभ्यनन्दन एवं तस्य प्रियं कुर्वन्नुत्कृष्टैरात्मकर्मभिः तत्राश्रमे वस्रामो दिनानि कतिचिन्नृप ततः कदाचिदेकान्ते रामं मुनिवरोत्तमः वत्सा गच्छेदि तं राजन्नुपाह्वयदुपह्वरे सोऽभिगम्यतमासीनमभिवाद्य कृताञ्जलिः तस्थौ तत्पुरतो रामसुप्रीतेनाधरात्मना आशीर्भिरभिनन्द्याध भृगुस् तं प्रीतमानसः प्राहनाधिगदाशङ्गं राममालोक्यसादरं शृणुवत्सवचो मह्य यत्त्वां वक्ष्यामि साम्प्रतं हितार्थं सर्वलोकानां तव चास्माकमेव च गच्छपुत्र ममा देशाद्धिमवन्दं महागिरिम् अधुनैवाश्रमादस्मात्तपसे धृतमानसः तत्र गत्वा महाभागकृत्वा श्रुभम् आराधय महादेवं तपसा प्रीतिमुत्पाद्य तस्य त्वं भक्र्यानन्यगयाचिराद श्रेयो महदवाप्नोषि नात्र कार्या विचारणा तरसा तव प्रीदो भवति करिष्यति च सर्वं मनसा यद्यदिच्छसि तुष्टे तस्मिन् जगन्नाथे शङ्करे भक्तवत्सले अस्त्रग्राममशेषं त्वं वणुपुत्र यथेप्सितं त्वयाहितार्थं देवानां करणीयं सुदुष्करम् विद्यतेभ्यधिकं कर्म शास्त्रसाध्यमनेकशः तस्मात् त्वं देवदेवेशं समाराधय शङ्करम् पक्त्या परमया युक्तस्ततोभीष्टमवाप्स्यसि यदि श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धतः पादे एकविंशतितमोऽध्यायः ॐ